श्रीमद्भागवत्महापुराणं सप्तं स्कन्धः असनवमोऽध्यायः प्रह्लादजीके द्वारा नृसिंहभगवान् की स्तुति नारदुवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसराः लोपयितु मथ कन्मन्यु संरब्धं सुधीरासदं साक्षात् श्रीप्रेथिता अदेष्टा सत्पुरुवत्वा सा नोपेयाय शङ्खितां प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्थके तात प्रथमयोपेहि स्वपित्रे कुपितं प्रभुं तथेति सनकैराजन्महाभागवतोऽर्भकः उपेत्य भुविकायेन नाम विधृताञ्जलिः सपादमूले पतितं तमर्भकं विलोक्य देव कृपया परिप्लुतः उत्थाप्य तच्छैर्यं ददं धात कराम्बुजं कालाहि विद्रस्तधियां कृताभयं तत्तत्करस्पर्श धृताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः तत्पादपद्मं हृदि निर्वृतो दधौ निश्च्यत्तनुक्लिन्नं हृदश्रुलोचनः प्रेमगद्गदयावाचां तन्यस्तृतीक्षणः प्रह्लाद्वाच ब्रह्मादिह सुरगणामुनियोथसिद्धाः सत्त्वैकथानमतयो वचसां प्रवाहैः नाराधितुं पुरुगुणैरधुनापिर्पिप्रभो किं तोष्टुमर्हति स मन्ये धनाभिजनरूपतप श्रुतोजं तेजप्रभावबलपौरुतबुद्धियोगा नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतो स भगवान् गजयूतपाय विभ्रान्त सद्गुणयुतां दरविन्दनाभपादारविन्दमिपदं वरिष्ठम् तदर्पितमनो वचने हितार्थ प्राणं पुनात् सकुलं दतु भूरिमानः नैवात्मनः प्रभुरयं निजलाभपूर्णो मालं जनाद् विपुचन् करुणो वृणीते यद्यज्जनो भगवते विदधीतमानं तच्चात्मने प्रतिमुख्यस्य यथा मुखश्रीः तस्मादहं विगतविक्लवम् ईश्वरस्य सर्वात्मना महिलामि यथा मनीषम् नीचो जया गुणविसर्ग मनुप्रविष्ट पूजेत येन हि पुमाननुवर्णितेन सर्वे समीविधिकरासवं तत्त्वधाम्नो ब्रह्मादयो वयमिवेशनचोद्विजन्तः क्षेमाय भूतयोतात्मसुखाय चाश विक्रीडितं भगवतो रुचिरावतारय्य तद्यच्छ मन्योमसुरस्य लोकासनवृत्तिमिताः प्रतियन्ति सर्वे रूपं नृशंहाविभयाय जनाः स्मरन्ति नाहं विभेम्यजिततेति भयानकास्य जिह्वार्कनेत्रभिकुटीरभसोऽग्रधृष्टात् आन्त्रस्रजहं छदं जकेसरं शङ्कुकर्णान् निर्हादभीतदिगिम्भादरी भिन्नकुङ्खाग्रात् तस्रोऽस्म्यहं कृपणवत्सरं दुःसहोग्रसंसारचक्रकदनादग्रसतां प्रणीत बद्ध स्वकर्मभिरुसत्तमते घ्रिमूलं प्रीतोपुवर्गं चरणं जवसे कदानु यस्मात्प्रियाप्रियवियोग स योगजन्म शोकाग्ना सकलयोनितुदयमानः दुःखौ सधं तदपि दुःखमतधियाहं भ्रूमन् भ्रमामि वद देव मे तव दाशियोगं सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तौ निषंहभिञ्च गीताः अञ्जस्तितर्ग्यम् अञ्जन्तितर्म्यान् गृणन् गुणगुणप्रमुक्तो दुर्गाणिते परिजुगाले हंससङ्गहं बालशनेह शरणं पितरौनुसङ्घं नार्दस्य चागदं मुदन्वती मज्जतो तप्तस्य तं तन्प्रतिविधीर्यं ध्याद्यश्रेष्टस्तवाद्य भवतनुवृतां तदुपेक्षितानाम् यस्मिन्नतो यदि हि येन च यस्य यस्मा यस्मै यथा यद्वितीयस्वपरपरोभां भावः करोति विकरोति पृथक् स्वभावः संचोदितस्तदखिलं मायामनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंस छन्दोमयं जयजयार्पितसोडसारं संसारचक्रमजकोति तर्हि तदन्यः स त्वं विनेत्य विजितात्मगुणः स्वधाम्ना कालो वशीकृतविषेज्य विसर्गशक्तिः चक्रे विशेषां भजयेश्वरसोडसारे निष्पीड्यमानमुपकर्ष विभोन्प्रपन्नम् धृष्टामयादिविभों खिलन्धिष्णपानाम् आयुः श्रियो विभवे क्षतियाञ्जनोऽयं ये स्मत्पितो कुपितः स विजिम्भितभ्रूविस्फूर्जिते न लुलिता स तु ते निरस्तः तस्मादमुस्तनूम् भितां महमाशुशोज्ञ आयुश्रियं नेक्षाम्यते विलुलितानुरुक्रमेण कालात्मनोपनयमां निजं सिद्धपार्श्वं कुद्राशितः सुखसुखा मृगतृष्णिरूपाः क्वेदं कलेवरमध्ने सरुजां विरोह निर्वेद्यते न तु जनो यदपीति विद्वान् कामालनं मदुलवैः क्वाहं रज प्रभवी शतमोदिकेऽस्मिन् ध्यातः सुरेतरकुले क्व तवानुकम्पा न भवस्य न वैरमायां जन्मेऽर्पितः शिरसि पद्मकरः प्रसादः नैषा परावरमतिर्भवतो ननु स्याब् जन्तोर्यथात्मसृहितो जगतस्तथापि संसेवया एवं जनं निपतितं प्रभुवाहि कूपे कामापि काममनुजां प्रवृतन् प्रसङ्गात् कृत्वात्मसां सुदर्षिणां भगवन् गृहीतः सोऽहं कथं नु विसृजयेतौ भृद्यसेवां मत्प्राणलक्षणमनन्त वितुर्वधस्य मन्ये स्वभन्त्यऋतिभितिवाक्यमितं विधातुं कड्गं प्रगृह्य यदवोचदीं सद्ये धृत्सु स्वामीश्वरो त्वदिं त्वं वदपरो वतुकं हरामि एकस्त्वमेव जगदेदमुस्ययत्वम् आद्यन्तयो पृथक् पश्यतिं मध्यतश्च श्रुष्ट्वा गुणं व्यतिकरं यजमाय्येदं लादेवतैरवसितं वा इदं सदसती स भवान् ततोन्यो यदात्मा परबुद्धिरियं शपार्थां यद्यस्य जन्मनिधनं स्थितिरिक्षणं च तद्वै तदेव वशुकालवदर्शितर्वोह नस्येतमात्मनि जगति लुल्याम्बु मध्ये शेषेत्मनानि सुखानुभवो निरीह योगेन मिलितदिघात्म निवेतनिन्द्रस्तूर्ये च तो न तु तमो तस्यैव ते बपुरितं निजकालशक्त्या सञ्चोदितप्रकृतिधर्म आत्ममुगूढम् अम्भस्य नन्तसेनां बिरमसमाधेर्नाभेरभूतस्वकणिकावटं वन्महाब्जं तस्सम्भवः कविरतोऽन्यतपस्यमानं त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य नाविन्ददब्धं ततमप्सू निमध्यमानो जातेङ्कुरैकङ्कथमुहोपलभेतबीजम् स त्वात्मयोनिं रतिं विस्मितः आश्रितोऽब्जं कालेन तिब्रतवशा परिशुद्धभावः त्वामात्मनिश भुवि गन्धमिभाति सुप्तं भूतेन्द्रियाशयमये विततं ददर्श एवं सहस्रवदना घ्रिसिरकरोरूनाशास्य कर्णैनां भरणायुधाढ्यं मायामयं सदुपलक्षितं सन्निवेशं दृष्ट्वा महापुरुषमापमुदम्ब्रिञ्च तस्मै भवान् हयं थिरन्तनूवं च विभ्रन् वेदद्रुभावति बलौ अद्वा नयच्छुते गणातु रजस्तमस्य सध्वं तव प्रियतमां तनुमा मनन्ति इत्थं नृतिरिञ्जकृसीदेवजसावतारे लोकान् प्रभावयसिंसि जगद्प्रतीपाल धर्मं महापुरुषपासि युगानुवृत्तं छन्न कलौ यद् भव त्रियुगोथ तत्त्वं नैतन्मनस्तव कथासु विकुण्ठनाथ संप्रीयते दुरितदुष्टम् असाधु कामातुरं हर्षशोकभये क्षुणार्तं तस्मिन् कथं तौ गतिं विमृता विदीनः जीभैकतोच्युतं विकर्षति मापीं तृप्ता शिश्नोऽन्यतस्त्वगुजरं द्रवणं कुतचिन् घ्राडोऽन्यतश्चिङ्कं च कर्मशक्तिर्भगव सपत्न्ययोगेह पतिं लृणत्ति एवं स कर्मपतितं भुवैतरण्यम् अस्यं अन्योन्यजन्ममरणाशनभीतभीतम् अस्य जनं स्वपरविग्रहवैरमेद्रं हन्तेति पारचरपि प्रिमूढमद्य कोन्वर्तते किलगुरो भगवन्प्रियासमुद्धारणे सम्भवसम्भवलोपहेतोः मूढे सुभयिं महदनुग्रहम् आर्तबन्धो किं तेन ते प्रियजनाननु सेवतां नः नैवोद्विजये परदुरध्ययं वेतरण्यं त्वद्वीर्यं गायन् महामृतं मग्नचित्तः शोचे ततो विमुख इन्द्रियार्थ माया सुखाय भरमुद्वहतो विमूढान् त्रायेण देवमुनिय स्वविमुक्तिकामा मौनं चरन्ति विजनेन परार्थनिष्ठाः नेतान्विहाय कृपणान्विमुक्ष एकोन्धान्यं तदस्य शरणं भ्रमतो न पश्ये जन्मेतु नादीं गृह्मे मौनव्रतसुत तपों ध्ययनस्वधर्मव्याख्या रहो जपसमाधे आपवर्ग्या प्रायः परं पुरुषते त्वजितेन्द्रियाणां वार्तापमन्त्युतनवात्रतूताम्बिकानां रूपे इमें सदसती तव वेदश्रेष्ठे बेजाङ्कुराविनचान्यतरूपकस्य युक्तासमक्षमुभयत्र वि चिन्मते त्वां योगेन वन्यतार्सु नान्यतः स्यात् तं वायुरग्निर्वियदम्बुमात्रा प्राणेन्द्रियाणि हृदयं चिदनग्रुं चिदनुग्रहश्च सर्वं तमेव सगुणो द्विगुणश्च भूमन्नान्यपि मनोवचसा नैते गुणानुगुणनो महदादयो ये सर्वे मनः प्रभृतय सह देवमर्त्या आद्यन्तवन्तवुर्गाय विन्दन्ति हि त्वाम् एवं विमृत्य सुतियों विरमन्ति शब्दात् तद्धेर्हत्तं नमहं स्तुति कर्मपूजा कर्मशितेश्चरणयोः श्रवणं कथायां संसेवया त्वयि विडयति षडङ्गया किं भक्तिं लभेत नारदुवाच एतावद्वर्णीतगुणो भक्त्या भक्तेन निर्गुणः प्रहलादं प्रणुतं प्रीतो यथमण्डूरभाचत श्रीभगवानुवाच प्रह्लादभद्रभद्रं ते प्रीतोऽहं ते सुरोत्तमं वरं वृणे स्वाभिमतं कामपूरोऽस्मि हं नृणां मां प्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे नृष्वा न पुनर्जन्तुरात्मानं तप्तुमर्हति क्रीणन्ति यतमां धीरा सर्वभावेन साधवः श्रेयस्कामा महाभागा सर्वासामाशसां पतिम् एवं प्रलोभ्यमालोपी वरैलोकप्रलोभनैः एकान्तिद्वाद्भगवती नै्छन्तानसुरुत्तमः इति श्रीमद्भक्ते महाप्राणिपरहंसां सीतायां सप्तमस्कन्दे प्रह्लादचरिते भगवत्सवो नाम लोभोध्याय